चन्द्रचूड मदनान्तक शूलपाणि स्थाणो गिरिश गिरिजेश महेशं भो भूतेश भीतभयसूदना नाग संसार दुख गगनाद जगदीशरक्षे पार्वती हृदयवल्लभ चुन्द्रमूळे भूताधिप प्रमदनाद गिरीस हे गगनात् जगदीश रक्षे नीलकङ् वृषभध्वज पङ्वक्त्र प्रमदेश सर्वे दूर्जे पशुपदे गिरिजापदे मां संसार दुख गगनाथ जगदीशर ना शिवशङ्करा देवदेव गङ्गाधर प्रमथनायका न दिगेश जगनाथ जगदीश रक्ष वारणसिपुरपठे मणकर्णकेश वीरे दक्ष मगकाल विभोग दुःख जगनाथ जगदीश प्रक्ष कण्ठ गणाधिनाथ भस्माङ्गराग नृकपालकला भ निवास वृषाकपे हे मृत्युञ्जयत्रिनयन त्रिजगनिवासनारायण प्रियमदापग शक्तिनाद संसारदुःखगनात् जगदीश विश्वरूप विश्वात्मक त्रिभुवनेक गुणादिके च हे विश्वनाथ करुणामय दीनबन्धो संसार दुःख गगनात् जगदीश भवनाय, महेश्वराय पञ्चाननाय शरणागत कल्पकाय शर्वाय सर्वजगतामधिपाय तस्मै दारिद्यदुःखदहनाय No mercy, why? no mercy, why? no mercy, no mercy, no mercy.